मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं फिफ्टीन् सप्तपादालवर्णनं श्रीगणेशाय नमः मुद्गल उवाच अदलं विदलं चैव सुतलं च तलातलं महातलं रसातलं पादालं सप्तमं स्मृतम् अदलं श्यामवर्णं तदधो भूमे सुसंस्थितम् अयुधे योजनानां वै वैविस्तारो लक्षयोजनः मयपुत्रेण संयुक्तं तथा नमुचिपूर्वकैः तथा न्यैर्विविधैर्नागैरतलं शोभितं प्रभो वितलं श्वेदवर्णं तदधस्तस्मात्तथा स्मृतम् अयुधे योजनानां तद्विवरं चैव संस्थितं तत्र नागासुराश्चैव वसन्ति सुखभोगिनः कम्बलशङ्कुकर्णश्च हयग्रीवश्च जम्भकः सुतलम्पिदवर्णं तदधस्तद्वत्प्रतिष्ठितं तत्रैव वैनतेयादि पक्षिणो दैत्यपो बलिः कलनेम्यादयश्चान्ये नाना दैत्यास्थिताः सुखं नागाश्च भयहीनास्ते संवसन्ति विहारिणः तलातलं तद्धा ज्ञेयं शर्करं तत्र वासिनः मया सुरादयश्चैव बाणान्धकमुखाः परे वसन्ति सुखभाव्ये नान्येनागा विगदज्वराः कालकेया महादेहा वचास्तथा महातलं कृष्णवर्णं तत्र तक्षकपन्नगः अन्ये च बहवो नागा वसन्ति सुखभोगिनः हिरण्यपुरधिष्ण्याश्च दैत्या अन्ये सहस्रशः देवानां भयमुत्सृज्य निवसन्ति प्रजापते रसातलं शैलमयमधस्तध्वस्थितं महद वास्सुकिप्रमुखैर्नागैर्दैत्यैर्नानाविधैस्तथा विवरे सर्वशोभाढ्ये नानासौख्यप्रदे परे तत्र तेजस्विनस्तीक्ष्णविषोघ्रा प्रवसन्ति वै पातालं नीलवर्णं तदद्धस्तस्मात्प्रतिष्ठितं तत्र स्थानं च शेषेण कार्यार्थे च कृतं किल तत्र नागास्तं सदा पर्युपासदे भक्तियुक्ताविवेकेन नागराजं महौकसम् पातालविवरेष्वत्र गृहानाविधा कृताः वनानि च तथा नगरानि नगराणि प्रजापदे विचित्रभोगयुक्ताश्च वृक्षा नानाविधा खगाः मन्दिराणि प्रभावन्ति सोत्पलानि सरांसिध तत्र स्वर्गसमं दक्षभोगं कुर्वन्ति जन्तवः हृष्टपुष्टजनाः सर्वे नियुताब्धोपजीविनः अपारायुसमयुक्ता महा तेजस एव ते देवादीनां सुदुर्धर्षा वसन्ति छन्दचारिणः तस्मादधसहस्राणि योजनानि प्रजापते त्रिंशत्तत्र स्वयं शेषः सदा तिष्ठति नागभः गणेशभक्तिसंयुक्तो गणेशांशसमुद्भवः विष्णो कलावतारश्च कालरुद्रस्तथा स्मृतः सहस्रानन एकोऽसौ महाभागो महाबलः यस्य विषभवाज्ज्वालात् देहात्तु सकलं जगद मृत्युवर्जित एकोऽसौ तेनानन्दप्रकीर्तितः ब्रह्मणो दिवसान्देवैलयं कृत्वा स्वयं स्थितः अभजन्नागराजास्तं वासुकिप्रमुखाः सदा असुराश्चैव प्रह्लादमुख्याः सेवापरायणाः उपासदेविलीनास्तं तथान्यान्नागयोषितः नानाकामप्रसिद्ध्यर्थमनन्दम्भक्ति तत्पराः तस्मादधः कक्षपश्य विष्णोश्चैवावतारिणः स्थानं सहस्र एकस्मिन् योजनानां स्थितम् प्रभो तत्र तं वरुणाद्याश्च सेवन्ते भावतत्पराः साक्षात् कुर्मस्वरूपस्थं नारायणमनामयम् योजनानाम् ततो धस्तात् सहस्रे वराकरूपधारी च विष्णुः परपुरञ्जयः तं धरित्रीमुखा सर्वे सेवन्ते भक्तितत्पराः महादेवं करालाज्यं स्वभक्तेभ्यो भयप्रदम् शेषाधारमिदं सर्वं कूर्माधारः स वै स्मृतः कूर्मो वराहरूपस्याधारेण समवस्थितः वराहश्च निराधारो गणेशं हृदि संस्मरन् प्रभावेण सर्वाधारः स तस्मादधो रौरवाद्या नरकाश्च समाश्रिताः यातनाकारिणः सर्वे पापिनां शुद्धिकारकाः रौरवैश्चैव तामिश्रो महारौरवसंज्ञ अन्ततामिश्रसंज्ञश्च तद्धा सूचीमुखोपरः लोहदण्डस्तप्तवालुकस्तथा खड्गपत्रकः लालास्य कृमिभक्ष्यश्च इत्याद्या बहवः स्मृताः नरकेषु प्रपच्यन्ते पापकारिण येवये ये यदा वान् ब्रह्मगोलस्थे सङ्क्षेपेण निरूपितः विस्तारणान्नैव शक्यश्च गदितुं वै प्रजापदे शापमोहस्य वेगेन समागदा गणेशाराधनेनाद्यभ्रान्तिनाशो भविष्यति तदा त्वं तत्त्वद सर्वं ज्ञास्यत्र संशयः एवं सर्वेषु सामान्यं ब्रह्माण्डेषु बभौ जगद अष्टावरणयुक्तेषु गुणेशाधारकेषु वै इदं गणपतेरूपं ब्रह्माण्डात्मकमस्थितं कथितं ते समासेन सर्वसिद्धिप्रदं मया यशृणोदिनरोभक्रिया पढे द्वै तस्य सर्वदं भुक्तिमुक्तिकरम्भावि पापकञ्चुकनाशनं तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये कण्डे एकदन्तचरिते सप्त पादालवर्णनं नाम पञ्चदशोऽध्यायः ओम्